ीमाला ओ निधनवतय नमः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 एतत्सोमस्य सूर्यस्य सर्वलिङ्गगुप्स्थापयतिपाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमः भवे भवेनाति भवे भव सुमाम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नम श्रेष्ठाय नमो रुद्राय न बाह्क्कालाय नकलविकर्णाय नमो बलविकर्णाय नमोबलाय नमो बलप्रमथनाय नमः सर्वभूतगमनाय नमो मनोन्मनाय नमः अघोरे एभ्योऽथघोरेभ्यो घोरघोरतरेभ्यः सर्वे एभ्यः सर्वशर्वे एभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयाधि ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपचर्ब्रह्मणाधिपचर्ब्रह्म शिवो मे अस्तु सदा शिवों नमो भगवते हिरण्यवर्णाय हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतिये अम्बिकापते पशुपतये न भो नमः ऋतगम् सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिञ्जलम् ऊर्ध्वरेतम् विरूपाक्षं विश्वरूपाय वै न भो नमः सर्वो वैरुद्रस्तस्मै रुद्राय नमोऽस्तु पुरुषो वैरुद्रस्सन्महो नभो नमः विश्वम्भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानञ्च इति सर्वोह्येषद्रस्तस्मै रुद्राय नमोऽस्तु तद् रुद्राय प्रचेतसे मे धृष्टमाय तव्यसे भोते भसन्तमधुं घृते सर्वो शेषद्रस्तस्मै रुद्राय नमो ॐ शान्ति शान्ति शान्तिः